अथर्ग्वेदे प्रथमाष्टके द्वितीयोऽध्यायः ॐ अयम् देवाजन्मने स्तोप्रेभिरासयानसातमः इन्द्राय वचोर्मनसा हरि समेभिर्यज्ञमाशत रक्षन्नासत्याभ्याम् वरिज्ञानम् सुखम् रथम् रक्षन् धेनुम् स वर्दुघा युवाना पितरा पुनः सत्यमन्त्राभवो विषयकृ सम्भो मदासो हमतेन्द्रेण च मरुत्वता आदित्येभिश्च राजभिःत्यन्तप्रसन्नवन्तष्टुर्देवस्य निष्कृतम् अकर्तचतुरः पुनः ते नो रत्नानि दत्तरत्रिरासाप्तानि सुन्दते एकमेकम् सुषस्तिभिः अधारयन्तवन् हयो भजन्त सु प्रत्ययाः भागम् देवेषु यज्ञयम् इहेन्द्राग्नि उपह्व एतयोरित् सोममुश्मसि ता सोमम् यज्ञेषु प्रशंसतेन्द्राग्नीषु हरा नरः ता, ता गायत्रेषु गायता तामित्रस्य प्रशस्तय इन्द्राग्नीताहवामहे सोमपासोमपीतये उग्रासुन्द्राह वामह उपेतम् सवनम् सुतम् इन्द्राग्नीयेहगच्छता महान्तासदस्पथीन्द्राग्निरक्ष उज्जतम् अप्रजाः सन्पत्रिणाः तेन सत्येन जागृतमधिप्रचेतुरे प्रदे इन्द्राग्निशर्म यच्छतम् प्रातर्युजा विबोधयाश्विनावेहगच्छताम् अस्य सोमस्य पीतये या सुरथा रथितमोभा देवादिविस्पृशा अश्विनाथाः वामहे या वाङ्कषामधुमत्यश्विना सूनृता भवति तया यज्ञम् विमिक्षतम् न हि वामस्ति दोरगे गृहम् िरण्यपाणिमूतये स वितारमुपह्वये स चेत्ता देवता पदम् अपान्नपातमवसे स वितारमुपस्तुहि तस्य उतान्युष्मसि विभक्तारम् हवामहेवसोश्चित्तस्य राधसः रचक्षसम् सखा आय आ निषे रथस विताः सोम्योऽनुनाः दाताराधाहंसि शुम्भति अर्धे पत्नेरिहावः देवानाः कृष्णाहारं सोमपीतये आज्ञाग्नशेहोत्रा यविष्ठभारतीम् पुरोद्रीम् धिषणाम् वः अभिनोः देवीरवसा महः शर्मणा धृपत्नीः अगच्छिन्नपत्रा स चन्ताम् इयेन्द्राणीमुपह्वये वरुणानीम् स्वस्तजे अग्नायीम् सोमपीतये महेद्यौ पृथिवी च न इमम् यज्ञम् मिमिक्षताम् विप्रताम् नो भरीमभिः तयोरिधृवत्तयो विप्रारिहन्ति भीतिभिः गन्धर्वस्य ध्रुवे पदे स्यो ना पृथिवी भवानक्षरा निवेशनी इच्छा नः शर्म सप्रथाः अतो देवावन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदं समूळमस्य पां सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपादाभ्यः अतो धर्माणि धारयन् विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यः सखा तद्विष्णोः परमम् फलम् सदा पश्यन्ति सूरयाः दिवि भचक्षुरादतम् तद्विप्रासोऽपिपन्यवो जागृवाम् सः समिन्धते विष्णोर्यत्परमम् फलम् तीव्राः सोमा स आगह्याशीर्वन्तः सुता इमे वा योतान् प्रस्थितान् उभादेवादिविस्पृशेन्द्रवायो हवामहे अस्य सोमस्य पीतये इन्द्रवायो मनोजुवा विप्रा हवन्तभूतये सहस्राक्षाधियस्पति मित्रम् वयम् हवामहे वरुणम् सोमपीतये ज्ञानापूतदक्षसा ऋतेन यावृता वृथा वृतस्य ज्योतिषस्पती मित्रावरुणाहुवे वरुणः प्राभिताभुवन्मित्रो विश्वाभिरूधिभिः करतान्नः सुराधसः स्वरुत्वन्दम् हवामह इन्द्रमासोमपीतये सजोर्गणेन तृम्बतो इन्द्रज्येष्ठामरुद्गणादेवासपूषरादयः विश्वे मम श्रुता हवम् हतवृत्रम् सुदानव इन्द्रेण सहसायुजा मानोः दुःश्रंस ईशत विश्वान् देवानह वामहे मरुतः सोमपीतये उग्राहि प्रश्निमातरः जयतामिव तन्यतुर्मरुतामेति धृष्णुया यच्छुभञयाथनानरः हस्काराद् विद्युतस्पर्यतो जाता अवन्तुनः मरुतो मृळयन्तु नः आपोषञ्चित्रबर्हिषमाघ्रिणे धरुणन्दिवः आदा नष्टम् यथा पशुम् पूषाराधानमाघ्रिणिरपगोल्ढम् गुहाहितम् अविन्दच्चित्रबर्हिषम् उतो समह्यमिन्दुभिः षड्युक्ताम् अनुशेषिधत् गोभिर्यभन्नचर्दृषत् अम्बयो यन्त्यध्वभिर्जामयो अध्वर्य यता पृञ्चतीर्मथुनापयाः अमूर्या उप सूर्येयाभिर्वा सूर्यः सह तानो हिन्वन्त्वध्वरम् अपो देवीर्बह्वये यत्र गावः पिबन्दिनः सिन्धुभ्यः कर्तुम् हविः अप्स्वा अन्तरमृतमप्सु भेषजमपामुत प्रशस्तये देवा भवत वाजिनाः अप्सु मे सोमो अब्रवीदन्तर्विश्वानिभेषजा अग्निम् च विश्वशम्भुममाश्च विश्वभेषजीः आपः प्रणीतभेषजम्बरोथन्तन्वे मम जयोक्तसूर्यम् दृशे इदमा प्रवहत यत्किञ्च दुरितम् मयि यद्वाहमभिरुद्रोहयद्वा शेप उतादृतम् आवो अद्यान्वचारिषं रसे न समगस्महि पयस्वानग्न आगहितम् मा समायुषा विद्युर्मे अस्य देवा इन्द्रो विद्यात् सहर्षिः तस्य नूनङ्कतमस्यामृतानाम्मना महे चारुदेवस्य नाम को नो मह्यानर्दात्पितरम् च ऋषेयम् मातरम् च अग्नेर्वयम् प्रथमस्यामृतानाम् मना महे चारुदेवस्य नाम नो मह्या अदितये पुनर्दात्पितरम् च ऋषेयम् मातरम् च अभित्वा देवसवितरिशानम् वार्याणाम् सदा वन्भागमीमहे यश्चिद्धित इत्था भगः शमानः पुरा निदः अद्वेषो हस्तयोर्दधे भगभक्तस्य वयमुदशे मदवावसा मूर्धानं नाय आरभे न हि ते क्षत्रन्न स हो न मन्युम् वयश्च नामी पतयन्त आपुः नेवा आपोः आपो अनिमिषञ्चरन्तीर्णये वा तस्य अबुद्धे राजा वरुणो वनस्योर्ध्वम् स्तोपम् ददते पूतदक्षः नीचीना स्थुलुपरिबुद्ध येषामस्मे अन्तर्निहिताः केतवः स्युः उरुं हि राजा वरुणश्चकारसूर्यायपन्थामन्वे एतवा उ अपदेपादाप्रतिधातवेकरुतापवक्ता हृदजाविधश्चित् शतन्ते ए राजन्विषयः सहस्रमुर्विगभीरासुमधिष्ठे अस्तु ाधस्मदूरे निररतिम्बराजैः हृदञ्चिदे नः प्रमुग्ध्यस्मत् अमीयरक्षानि हि तास उच्चानक्तन्दृश्रे कुहचिद्दिवेयुः अनर्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमानः कमेति तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते निदमानो अहेळमानो वरुणेह बोध्युरुशं समानायुः प्रमोषीः तदिन्न क्लम् दद्धिवा मह्यमाहुस्तदयङ्केतो हृदावितष्टे शुनश्ये पोयमह्वद्गृभीतः सो अस्मान् राजा वरुणो मुमोक्तो शुनश्ये पो ह्यह्वद्गृभीतस्त्रिष्वाहादित्यन्द्रुपदेषु बद्धः वैनम् राजा वरुणः सृज्याद्विद्वाङ्ो व्युमोक्तुपाशान् अवदेहेणो वरुणनमोऽभिरवयज्ञेभिरेमहे हविर्भिः क्षयन्नस्मभ्यमसुरप्रचेता राजन् देनाम् शिशिश्रथः कृतानि उदुत्तमम् वरुणपाशमस्म न वामम् विमध्यमम् था वयमादित्यौ व्रते तमानागसो अदितये स्याम यच्चिद्धिरे विशो यथा प्रदेमवरुणौ व्रतम् मिनिमसिद्य विद्यवि मानोऽवधा जत्मवे जिहीणानस्य रीरथः माहृणानस्य मन्यवे विमृळीकायते मनो रथीरश्वन्नसन्दितम् गीर्भिर्वरुणसेमहि पराहि मे विमन्यवः पतन्ति वस्य इष्टये मयो नवसतीपा कदाक्षत्रश्रियन्न रमावरुणङ्गरामहे मृळीकायो रुजक्षसम् तदित्समानमाशाते वेनन्ता न प्रयुच्छतः धृतौ वेदायो वीणाम् पदमन्तरिक्षेण पतता वेदनामः समुद्र्याः वेदमासो धृतौ रतो द्वादश प्रजावतः वेदाय उपजायते वेदवातस्य वर्तनि मुलोररुश्वस्य बृहतः वेदाय अध्यासते निशसादधृतौ रतो वरुणः पस्या स्वाहा ्राज्याय सुक्रतोः रतो विश्वान्यद्भुता चिकित्त्वाङभिपश्यति कृतानिया च कर्त्वा स नो विश्वाः सुक्रतुरादित्यः सुपथाकरत् प्रणायूं शितारिषत् बिभ्रद्रापिम् हिरण्यजम् वरुणोऽवस्त्रनिर्णियम् परिस्पशो निषेदिरे नयन् दिप्सन्दिप्सवो न द्रुह्वाणो जनानाम् न देवमभिमातयः उदयो मानुषेष्वायषश्चक्रे असाम्या अस्माकमुदरेश्वा परा मेयन्ति धीतयोगावो न गव्योतीरनो इच्छन्ति रुरुचक्षसम् सन्नुवो ओचावहैपुनर्यतो ओमे मध्वाभृतम् ोते भक्षरसे प्रियम् दर्शन्नु विश्वदर्शतन्दर्शम् रथमधिक्षमि एतादृशतमे गिराः इमम् मे वरुणश्रुधि हवमद्या च मृणय त्वामवस्युराचके त्वम् विश्वस्य मे चिरदिवश्चग्मश्च राजसि स यामनिप्रतिश्रुधि उदुत्तमम् मुमुग्धिनो विपाशम् मध्यमञ्श्रुता वाधमानि जीवसे वसिष्वाहि वियेऽध्यवस्त्राण्योर्जाम्बदे सेमन्नो अध्वरम् यज निनोः तावरेण्यः सदा यविष्ठमन्मभिः अग्ने दिविद्मतावचाः आहिष्मासूनवे पितापि ल्यजत्यापये सखा सख्येवण्यः आ नो बर्हीरिषादसो वरुणो मित्रोऽ्यमा सीदन्तुमनुषो यथा पूर्व्यहोतरस्य नो मन्दस्व सख्यस्य च इमा गुश्रुति गिराः यच्चिद्धि शश्वतातना देवन्दे वं यदामहे प्रे इद्धूयते हविः प्रियो नो अस्तु विश्वतिर्होता मन्द्रो वरेण्यः प्रिया स्वग्नयोभयम् स्वग्नयो, स्वग्नयो हि वार्यम् देवासो दधेचनः स्वग्नयो मनामहे अथा न उभयेषामृतवर्त्यानाम् मिथः सन्तु प्रशस्तयः विश्वेभिरग्ने अग्निभिरिमय्यज्ञमिदम् वचाः च नोधाः सहसोयः अश्वन्नत्वापारवन्तम् वन्दध्या अग्निर्नमोऽभिः सम्राजन्तवद्धराणाम् सघानः सोऽनुःशवसा पृथुप्रगामा सुषेवाः मेढ्वा अस्माकम् प्रभूयात् समादूराच्च सा चरिमर्त्यादघायोः पाहि सदमिद्विश्वायोः इममूषुत्तमस्माकम् सलिङ्गायत्र्यांसम् अग्ने देवेषु प्रवोचः आनो भज परमेष्वाजेषु मध्यमेषु श्रीक्ष्रामस्वोऽमस्य विभक्तासि चित्रभानो सिन्धो रूर्मा उपाकः सद्यो दाशुषे यमग्ने मृत्सुमर्त्यमवाजे श्रुयञ्जुनाः सयन्ता शश्वतीलिशाः सहन्त्येतागजस्यचित् वाजो अस्ति श्रवाय्याः स वाजम् विश्वचर्षणिभिरस्तु तरुता विप्रेभिरस्तु सनिता जराबोध तद्विद्धि विषये सोमम् रुद्राजदृशीकम् सनो, सनो महाङ्गनिमानो धूमगेरुः पुरुश्चन्द्रः गिरेमादायहिन्मरु सरेवाङ्गिव विश्वदुर्दैव्यः केतुशृणोतु नः मुक्थैरग्निर्बृहद्भानुः नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः देवान्यदि शक्नवा ममाध्याय सस्यम् समावृक्षि देवाः यत्र ग्रावापृथुर्ध्न ऊर्ध्वो भवति सोतवेलोखलसुता नाम वेद्बिन्द्रजल्गुलः यत्रव जघनाधिशमण्याः कृता वुलोखलसुता नाम वेद्बिन्द्रजल्गुलः यत्र नार्यपत्यवमुपच्यवम् च शिक्षते उलोखलसुता नाम वेद्विन्द्रजल्गुलः यत्र मन्थाम् विवर्धते रश्मीनियमित वा इव उलोखलसुता नाम वेद्बिन्द्रजल्गुलः यच्चिद्धि त्वम् युज्यसे इह द्युपत्तमम् वदजयतामिवदुन्दुभिः उतस्मते वनस्पते वातो विभात्यग्रवित् अथो इन्द्रायपातवे सुनु सोममुलूखल आयजीवायसात माता ह्यू उच्चाभिजर्भृतः हरिः इवान्धाम् शिवप्सता तानो अद्य वनस्पति विश्वा वृष्ेभिः इन्द्रायमधु मत्सुतम् वच्छिष्टम् चम्बोर्भरसोमम् पवित्रासृजा गोरधि त्वचि यच्चिद्धि सत्यसोमपा अनाशस्ता इवस्मसि आदो आतू न इन्द्रशंसजगोष्वश्वेषु भृषु सहस्रेषु तु वीमघ निश्वा आपयामि तोदृशासस्तामबुध्यमाने आदून इन्द्रशंसजगोश्वेषु भृषु सहस्रेषु तु वीमघ ससन्तुत्याहरातयो बोधन्रातयाः आदो न इन्द्रशंस जगोश्वे एषु शुभ्रिषु सहस्रे एषु तु भीमः समिन्द्रगर्दभम् ऋणतुमन्तम् पापया भुया आदू न इन्द्रशंस जगोश्वेशु शुभ्रिषु सहस्रे एषु तु भीमः पता आदिकुण्णाच्यादूरम् वातो आतो न इन्द्रशंसजगोश्वेषु सुभ्रिषु सहस्रेषु तुमघ सर्वम् परिक्रोशम् जहि जम्भया कृतराश्वम् आतो न इन्द्रशंसजगोश्वेषु शुभ्रिषु सहस्रेषु तुमघ आव इन्द्रिमी यथा वा जयन्तः शतक्रतुम् मम् हिष्ठम् सिञ्च इन्दुभिः शतम् वायशुचीनाम् सहस्रम् वासमाशिराम् एदुरिम् नन्नरीयरे संयन्मराय सुष्मिन एनाह्यस्योदरे समुद्रोऽनम्यचोदधे अयमुते समतसि कपोतरिव गर्भधिम् वचस्तच्छिन्न ओहसे स्तोत्रम् राधानाम् रते गिर्वाहो विभूतिरस्तु सूदृता ऊर्ध्वस्तिष्ठानभूतयेऽस्मिन् वाजेशतक्रतो स मन्ये शुभ्रवावहै योगे योगे तमस्तरम् वाजे वाजे हवामहे सखाज इन्द्रभूतये आखागमद्यति श्रवत्सहस्रिणीभिलोतिभिः वाजेभिरुपनोऽहमम् अनुप्रत्नस्यौकसो हुबे तु विप्रतिन्नरम् यन्ते पूर्वम् पिता हुबे तन्ताभयम् विश्वभाराधास्महे पुरुहूता सखेव सखे वसो अस्माकम् शिप्रिणीनाम् सोमपाः सोमपा उनाम् सखेव जृन्सीनाम् तथा तदस्तु सोमपाः सखेवज्रिम् तथा कृणो यथा उष्मसीष्टदे रेवतीर्णः स ध इन्द्रे सन्तु तु विवाजाः क्षुमन्तो याभिर्मरेम आहत्वा वात्मनाप्तस्तो दृभ्यो धृष्णवियानः ऋणोरक्षन्नचक्र्योः आयद्वामञ्जरी तृणाम् ऋणोरक्षन्नशतीभिः शश्वपृथद्भिर्दिगाजनान तद्भिः शाश्वसद्भिर्धनानि स नो हिरण्यरथन्तम् सनावान् सरसी सनये सना स नोदात् आश्विनामश्वावत्येषा या तं शवीरया वो मद्दस्रा हिरण्यवत् समानयो जनो हि वाम् रथो समुद्रे अश्विनेयते या अग्नस्य मूर्धनिचक्रम् रथस्य ये मथुः परिद्यामन्यदीयते कस्त उषः कथप्रिये भुजे कन्नक्षसे विभावरि वयम् हि ते अमन्मह्यान्तादापराकार अश्वेन चित्रे अरुषि त्वन्त्येभिरागहि माजेभिर्दुहितर्दिवः अस्मे रयिन्निधारय त्वमग्ने प्रथमो अङ्गिरार्षिर्देवो देवानाम भवः शिवः सखा तवौ रे कवयो विद्मना वसोजायन्द्रमरुतोभ्राजदृष्टयः त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानाम् परिभूषति रतम् विभुर्विश्वस्मै भुवनाय मेधिरोद्विमाताशयुः कतिदाचिदाय रे त्वमग्ने प्रथमो मातरिष्वन आविर्भव सुक्रतूयामिवस्वते ले एजेताम्रोदसी होत्रिवोर्ये सघ्नोर्भारमयजो महोऽवसो त्वमग्ने मनवेद्यामवाशयः पुरोरभसे सुकृते सुकृत्तरः स्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरम् पुराः त्वमग्ने वृषभः पुष्टिवर्धन उद्यतश्रुते भवसि य आहुतिम् परिवेदामे कायुरग्रे विष आविवाससि त्वमग्ने समर्षणे यशूरसाता परितग्भ्रेभिश्चित्समृताहंसि भूयसः त्वम् तमग्ने अमृत त्व उत्तमे मर्तन्न राजिश्रवसे दिवे दिवे यस्तादृषण उभया च जन्म ने मयः कृणो चिप्रजा च सूरजे त्वन्न अग्ने सनये धना यशसङ्कारुम् कृणुहिस्तवानः रुध्यामकर्मापसानवे न देवैर्द्या वा त्वन्नो अग्ने पित्रोरुपस्था देवो देवेष्वनवर्जागृहिः ोऽधिप्रमतिश्चकारवे त्वम् कल्याणवसु विश्वमोऽपिषे त्वमग्रे प्रमतिस्त्वम् पितासिनः स्वम् वयस्कृत्तव जामयोभयम् सन्ताराय शतिनः संसहस्रिणः सुबीरञ यन्त्यमुरतपामलाभ्या त्वामग्ने प्रथमायुमायवे देवाहुषस्य विष्पतिम् इळामकृण्वन्मनुषस्य शासनीम् पितुर्यत्पुत्रो मम कस्य जायते त्वन्नो अग्ने तव देव पादुषर्मखो नो रक्षतन्दश्च वन्य त्रालोकस्य तन एगवामस्य निमे संरक्षमाणस्तवते त्वमग्ने यज्यवे पादुरन्तरो निषङ्गाय चतु रक्षयिध्यसे यो रातहौं यो वृकाय धायसे कीरेश्चिन्मन्त्रम् मनसा मनोषितम् त्वमग्नपुरुषम् सायवाखरे स्पार्हय्यद्रेक्ष्णः परमम् वनोषि तत् आध्रस्य प्रमतिरुच्यसे पिता प्रपाकं शास्य विदुष्टरः त्वमग्ने प्रयत दक्षिणम् परिपासि विश्वनाः स्वादुःखद्मायोपसतोऽस्यो न कृज्येव जायम् यजते सोपमादिवः इमामग्ने शरणिम् मीमृषो न इममध्वानयमगामदूरार् आविः पिता प्रमतिः सोम्यानाम् भृमिरसि ऋषिकृन्मर्त्यानाम् मनुष्मदग्ने अङ्गिरस्मदङ्गिरो पूर्ववच्छुते च्छयाह्या वहादैव्यञ्जनमासादयबर्हिष्यक्षि च प्रियम् एतेनाग्ने ब्रह्मणा वा रुजस्वशक्ते वायत्रे च प्रभाविदा वा उत प्रणेष्यभिवस्यो अस्मान् सन्नःसृजसु भत्या वा जवत्या इन्द्रस्य नु वीर्याणि प्रवोचय्यानि चकार प्रसमानि भद्री अहम् न हिमन्वस्तदर्द प्रवक्षणा अभिनत्पर्वताना अहं नहिम्पर्वते श्रियागम् दृष्टास्मै वज्रम् स्वर्यम् तदक्ष वाश्रा इव धेरस्यन्दमानाञ्जस्तमवजगुराः वृणीतसो मन्त्रिकद्रुगेष्वमिवत् आसायकम् मघवा दत्तवज्रमहम् नेनम् प्रथमजामहीनाम् यजिन्द्राहम् प्रथमजामहीनामान् मायिनाम विनाः प्रोत मायाः सूर्यम् जनयञ्जामुषासन् तादीत् नाशत्रुन्न किला विवित्से अहम् व्रत्रम् वृत्रतरम्यम् सविन्द्रो वज्रेण महता पथेन स्कन्धा दिशेनाविवृक्नाः अयोध्येव दुर्मदा हि जुह्वे महावीरन्तु वि बाधमृजीषम् नातारीरस्य स्मृतिम् वधानाम् समृजानास्पिष इन्द्रशत्रुः अपादहस्तो अपृतम् यदिन्द्रमास्य वज्रमधिसानो कृष्णो बद्ध्रिष्पतिमानम् बुभूषन्बुरुत्रा वृत्रो अशयद्व्यस्तः नरन्नभिन्नममुयाशया रम् मनोरुहाडा अतियन्त्यापाः याश्चिद्वृत्रो महिरा पर्यतिष्ठत्ता सा महिष्पत्सु सश्री बभूव नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अभव धर्जभार पुत्र आसीदानुशये सह वत्सानधेनु अतिष्ठन्तेनामनिवेशनानाम् काष्ठानाम् मध्ये निहितम् शरीरम् वृत्रस्य निणम् विचरन्त वो दीर्घन्तमाशयदिन्दशत्रुः दासपत्नीरहि गोपा अतिष्ठन् निरुद्धा आपः पणिने भगावाः अपाम्बिलमपि हितशीद्वृत्रम् जघन्वाङ्पतद्वर अश्वो वारो अभवस्तदिन्द्रसृगे यत्वा प्रत्यहन् देव एकाः अजयोगा अजयः शूरसो मम वा स्मै विद्युन्नतन्यदुःशिषे धनयाम्यहमकिरद्धातु इन्द्रश्च यद्वियुधा ते बहिश्चोता परीभ्यो ओमघवापि जिज्ञे अहे एर्याताङ्गमपश्य इन्द्र हृदयत्ते जघ्षोभिरगच्छत् न पयन्नवतिञ्च न्द्रो यातोऽपसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः सेतुराजा क्षयति चर्षणीनामराह्नने विः परिता बभूव इति प्रथमाष्टके द्वितीयोऽध्यायः